अवतिोबोवत् दशकम् रासक्रीडै अञ्च केशपाशदृतपिञ्जिकावितति सञ्चलन् मकरकुण्डलम् हारजालवनमालिकाललितमङ्गरागगनसौरभम् पीतशेलधृतकाञ्चि काञ्चितमुदञ्चदम् सुमणिनोपुरम् रासकेलिपरिभूषितम् तव हि रूपमी च कलयामहे कावदेव कृतमण्डले कलितकञ्चुलीककुचमण्डले का गण्डलोलमणिकुण्डले युवतिमण्डले तपरिमण्डले अन्दरासकलसुन्दरीयुकलमिन्दिरारमण सञ्चरन् मञ्जुलाम् तदनुरासकेलिमयि कञ्जनाभसमुपादत वासुदेव तव वासमानमिकरासकेलिरससौरभम् दूरतोऽपि कलु नारदा गतितमाकलयकोतुकाकुला वेषभूषणविलासपेशलविलासिनि सतसमावृदा नाकतो युगपदागता वियतिवेगतोतसुरमण्डली वेणुनादकृततानदानकलगानरागगतियोजना लोबनीयमृदुपादपादकृततालमेलनमनोहरम् पाणिशङ्कणितकङ्कणम् च श्रद्धया विरचितानुगानकृततारतारमधुरस्वरे नर्तने दललिताङ्गः दलुलिताङ्गः रमणि भूषणि सम्मदेन कृतपुष्पवर्षमलमुन्मिषद्दिविशदाम् कुलम् चिन्मये त्वयि निलीयमानमिव स्विन्न स्विन्नसन्नतनुवल्लरी तदनु कापि नाम पशुपाङ्गना कान्तमम् समवलम्बते स्म तव तान्दिबारमुकुलेक्षणा काशिदाचलितकुन्तलानवपटीरसारनवसौरभम् वञ्चनेन तव सञ्चुचुम्बभुजमञ्चितोरुपुलकाङ्गुरम् कापि कण्डभुवि सन्निदायनि जघण्टमाकुलितकुण्डलम् पुण्यपूरनिधिरन्ववाप तव बूकशर्वितरसामृतम् इन्दिराविहृतिमन्दिरम् भुवनसुन्दरम् हि नटनान्तरे त्वामवाप्यतदुरङ्गना किमु न गानमी च विरतम् क्रमेण किल वाद्यमेलनमुपारतम् ब्रह्मसम् सम्मदरसा कुला सदसि केवलम् ननृतुरङ्गना नावितन्नपि च नीविकाम् किमपि कुन्दलीमपि च कञ्जुली ज्योतिषामपि कदम्बकम् दिवि विलम्बितम् किमपरम् ब्रुवे मोदसीम् निभुवनम् विलाप्य विकृतिम् समाप्य केलिसंरुदित निर्मलाङ्गनवकर्मलेश सुभगात्मनाम् मन्मथासकनचेदसाम् पशुपयोषिताम् सुकृतचोदित तावदा कलितमूर्तिरादतितमारवीरपरमोत्सवान् केलिबेत परिलोलिता स्वैरमी च ननु सूरजापयसि चारुणामविहृतिम् यद पूर्णसम् मदरसार्णवम् कमपि योगिगम्यमनुभावयन् ब्रह्म शङ्करमुखानपीगपशुभाङ्गनासु बहुमानयन् भक्तलोकमनीयरूपकमनीय कृष्ण परिपाकि भक्तलोककमनीयरूपकमनीय कृष्ण परिपाहि माम् भक्तलोकमनीयरूपकमनीय कृष्ण परिपाहि माम् भजगोपाला भजगोपाला प्यरी मुरारी नंदलाला